ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं ट्वेण्टि टु दुर्मदकुरण्डवधम् अध श्रीलितासेनानिस्साणप्रदिनिस्वनः उच्चालसुरेन्द्राणां योद्धतो दुन्दुभिध्वनिः तेन मर्दिदधिक्केन बधिरी मर्दयन क्षुभ्यपयोधि बधिरीकंे भूधर मर्दयुभांूरकंदरा पुप्रोधे गगन भोगे दैत्य निण निस्वन महानरहरीक्रुद्ध हूंगोति मध्वनि विरसं विररासोच्चैर्विबुधद्वेषिच्छल्लरी तद किल किलारावमुखरा किला दैत्यकोटयः समनह्यन्द संक्रुद्धा प्रतितां परमेश्वरीं कच्चिद्रत्नविचित्रेण वर्मणाच्छन्नविग्रहः चकाशे जंगम इव प्रोतुंगो प्रोत्तु रोह कालरात्रिमिवोद्रा शस्त्रेण गोपीताधुनीत भट कशिदिधपाणी काग्रेण कुंदपल आरूढ़रगोवीध्या चारिभेद संपाद प्रेरितानिव चकार केारुरुहुधा मादंगा स्तुंग्मण उत्दवादसरिताव पर्वता पट्टिषर्मुगर भिदुरभिपाललक्रुगणश्चुशुंडीढ़रपी गदाश्निभस्त्रिशिखर्शिखरच्रैर्मच्रैर्वक्रांगरगानन फणिशीर्ष प्रभेदुर्भंग दंड क्षेपिकाशस्त्रज्रबाणदृश्वर यव मुष्टि कडारै यवध्यमुष्टिम्यवल खंडलर कड़े कौनमध्य फणिदरश पाशाु पाशतु काकतुंडय सहस्रशमाुग्रैरायुर्जीवारी परिकल्पितहस्ताग्रावर्मिदा दैत्यकोटयः अश्वारोहा गजारोहा गर्दभारोहिणः परे उष्ट्रारोहावृकारोहाण शुनकारोहिणः परे काकादिरोहिणो गृध्रारोहा कादिरोहिणः व्याघ्रादिरोहिणश्चान्ये परे सिंहादिरोहिणः शरभारोहिणश्चान्ये भेरुण्डारोहिणः परे सूकरारोहिणो व्यालारूढाप्रेदादिरोहिणः एवं नानाविधैर्वाहवाहिनो ललितां प्रति प्रचेल्लु प्रबलक्रोधसम्मूर्छिदन्निजाशयाः कुडिलं सैन्यभर्तारं दुर्मदं नाम दानवं दशाक्षौहिणिकायुक्तं प्राहिणोल्लितां प्रदि दिधक्षुभिरिवाशेषं विश्वं सह बलोत्कडैः बडैर्युक्तः सेनानी ययौ। सैनानीय बिंदनप स्रावस्तुर्दश जगन्धिश अटह सान्वीतवानो दुर्मदस्तु यय कुडिलाक्षो महाबलः महाबल पुरद्वारे। चीने समकल्पयत रक्षणार्थं दशाक्षौहिण्युपेतं तालजङ्खकम् अवाचीने पुरद्वारे दशाक्षौहिणिकायुतं नाम्ना तालभुजं दैत्यं रक्षणार्थमकल्पयद प्रतिचिने पुरद्वारे दशाक्षौहिणिकायुतम् तालग्रीवं नाम दैत्यं रक्षार्थं समकल्पयत् उत्तरेदुपुरद्वारे तालकेदुं महाबलम् आदिदेशस रक्षार्थं दशाक्षौहिणिकायुतं पुरस्य सालवलये कपि शीर्षकवेश्मसु मण्डलाकारदो वस् दशाक्षौहिणीमादिशत् एवं पञ्चाशदाकृत्वाक्षौहिण्याः पुररक्षणं शून्यकस्य पुरस्यैव तद्वृत्तं स्वामिनेवदद कुडिलाक्ष उवाच देवत्वदाज्ञया दत्तं सैन्यं नगररक्षणे दुर्मदः प्रषितः पूर्वं दुष्टां तां ललितां अस्मत अस्मत्किङ्करमात्रेण सुनिराशाहि साबला सा बला तथापि पुररक्षणं पुरक्षणम् इत्युक्त्वा भण्डदैत्येन्द्रं कुबिलाक्षोदिगर्वितः स्वसैन्यं सज्जयामास सेनापतिर दूतस्तु प्रषित पूर्व कुटीलाक्षण दानव ध्वजिनी ध्वजियुक्त ललिता सैन्यवृणोद कृवा किल किंटास्त्र सहस्रचः, दोधूयमानैरसिभिर्निपेतुशक्रिसैनिकैः ताश्च शक्रिय उद्दण्डास्फुरिताट्टःसस्वनाः दे दीप्यमानशस्त्राभासमयुध्यन्ददानवैः शक्रीणां दानवानां च संशोभितजगत्त्रयः समवर्तदसङ्ग्रामो धूलिग्रामतदाम्बरः रथवंशेषु मूर्च्छन्ध्यकरिकण्ठैः प्रपञ्चिताः अश्वनिःश्वासविक्षिप्ता धूल्यो रवं प्रपेदिरे तमापदन्तमालोक्य दशाक्षौहिणिकावृतम् दुद्राव सम्बत्सरस्वति क्रोथादभिदुद्रावसङ्गरे सम्बत्करीसमानाभिशक्तिभिः समधिष्ठिताः अश्वाश्च दन्दिनो मत्ता व्यमर्दन्दानत्रीं च मुं अन्योन्य तु मुले युद्धे जादे किलिकिलारवे धूलिषु धूयमानासु ताड्यमानासु भेरिषु इतस्तदः प्रववृद्धे रक्तसिन्धुर्महीयसी शक्तिभिः पात्यमानानां दानवानां सहस्रशः ध्वजानि लुठितान्यासन्विलुनानि शिलीमुखैः विस्रस्तत चिहना समं छत्र कदंबक रक्ताुणायाँ युद्धोव्यां पतिमंडल आलमबित संध्याब्रहिमरोचिषा ज्वालाक चारुपयोन निध दैत्यसैन्यानि निवहाशक्रीणां पर्यवारयन् शक्तिश्चन्द्रोज्ज्वलश्छनिष्कृतकन्धराः दानवानां रणतले निपेदुर्मुण्डराशयः डष्टौष्ठैर्भ्रुकुडि क्रूरै क्रोधसंरक्तलोचनैः मुण्डैरखण्डमभवत्सङ्ग्रामधरणीतलम् एवं प्रवृत्ते समये जगच्चक्रभयङ्करे शक्तयो भृशसंक्रुद्धा दैत्यसेनाममर्दयन् इतस्ततः शक्तिशस्त्रायस्थाडिता मूर्छिता इति विनेशोर्धानवास्तत्र सम् पद्देवी बलाहताहा अथ भग्नं समाश्वास्य निजं बलमरिन्दमः उष्ट्रमारुह्य सहसा दुर्मदोऽभ्यद्रवच मुम् दीर्घग्रीवसमुन्नद्धः अधिष्ठितो दुर्मदेन वाहनोष्ट्रस्थ चालः तमुष्ट्रवाहनं दुष्टमन्वीहुः क्रुद्धचेतसः दानावनश्व सत्सर्वान्भिदाञ्चक्रि युयुत्सया अवाकिरद्दिशो भल्लैरुलसद्भलशालिभिः सम्पत्करी वनं वार्भिरिवाम्बुदः तेन दुःसहसत्वेन ताडिदा बहुभिः शरैः स्तम्भितेवा भवत्सेना सम्पत्कर्याः क्षणं रणे अधक्रोधारुणं चक्षुर्दधाना सम्पदम्बिका रणकोलाहल गजमारूठा आलोल रमनीय गजमारुढायुध्यतामुना आलोलकङ्कणक्वाणरमणीयतरकरः तस्याश्चाकृष्य को दण्डमौर्वीमाकर्णमाहवे लघुहस्ततया पश्यन्नाकृष्टन्न च मोक्षणं ददृश्ये खनुष्चक्रेवल शरधारणे अश्व काबरसपर्क स्फुट प्रतिफल फला शरासत् चापच्युता सदनी दुर्मद्यादत समूद्युत अभूदनोंोन्य सम्कटाद्विस्फुलिङ्गशिलीमुखैः प्रथमं प्रसृतैर्बाणैः सम्बद्धेवी सुरद्विषोः अन्धकारसमभवतिरस्कुर्वन्नहस्करम् तदन्तरे च बाणानामधिसङ्घट्टयो नयः विदधिरे वि दधिरे, दधिरे भ्रमचातुरीं तयाधिरूढः संश्रोण्यारणकोलाहलकरी पराक्रमं बहुविधं दर्शयामास सङ्गरे करेण पादकादेन कांश्चन उदग्रदन्दमुसलखातैरन्यांश्च दानवान् वालक्काण्डतैरन्यान् श्वेत्कारैरपरान् द्विपून् गात्रव्यां मर्दनैरन्यान्नखातैस्तथापरान् पृथुमानाभिखादेन कांश्चिदैत्यन्वयमर्दयद चतुरं चरितं चक्रे सम्बद्देवी मदङ्गजः सुदुर्मधक्रुधारक्तो दृढेनैकेन पत्रिणा सम्पत्करी मुकुटगं मणिमेकमपाहरत् अध क्रोधारुणदृशातया मुक्तैः शिलीमुखैः विक्षदो वक्षसि क्षिप्रं दुर्मदो जीवितं जहौ तद किल किलारागं कृत्वा शक्तिचमूवरैः तत्सैनिकवरास्त्वन्ये निषदा सदावशिष्टा दैत्यास्तु शक्तिबाणैःखिलीकृताः पलायितारणक्षोण्या शून्यकं पुरमाश्रयन् तद्वृत्तान्तमधा कर्ण्य संक्रुद्धो दानवेश्वरः प्रचण्डेन प्रभावेण दीप्यमान इवात्मनि तपस्पर्श नियुद्धाय खड्गमुग्रविलोचनः कुडिलाक्षं निकटकं बभाषे पृतनापदिं कथं सादुष्टवनिता दुष्टवनिता बलशालिनं निपातितवदी युद्धे कष्ट एव विधे न सुरेषु न यक्षेषु नो रगेन्द्रेषु यद्बलम् अभूत्प्रदिहदं सोऽपि दुर्मदो बलया हतः तां दुष्टवनितां जेतुमाक्रष्टुं च कचं सेनापदिं सेनापतिं कुरण्ढाख्यं प्रेषयाहवधुर्मदं येदि सम्प्रोषितस्तेन कुडिलाक्षो महाफलं कुरण्डं चण्डदोर्दण्ड माजुहावप्रभोः पुरः सकुरण्डः समागत्य प्रणाम स्वामिने दिशद उवाच कुडिलाक्षस्तं गच्छ सज्जयसैनिकान् मायां चतुरोऽसि त्वं चित्रयुद्धविशारद कुडयुद्धे च निपुणस्तां स्त्रियं परिमर्दय यदि स्वामिपुरस्तेन कुडिलाक्षेण देशितः निर्जगाम पुरातूर्णं कुरण्डश्चण्डविक्रमः विंशत्यक्षौहिणीभिश्च समन्तात्परिवारितः मर्दयन् स महीगोलं हस्तिवाजिपदातिभिः दुर्मदस्याग्रजश्चण्ढकुरण्ठस्समरं व्ययौ धूलीभिस्तुमुलीकुर्वन् दिगन्धं धीरमानसः शोकरोष ग्रहग्रस्तो जवनाश्वगतो ययौ शार्गं धनुःसमादाय खोरडङ्गारमुत्स्वनं ववर्ष शरदारभिसम्पत्कर्य महाचमों पापे मतनुजं हत्वा दुर्मदं युद्धदुर्मदं वृधा वहसि विक्रान्तिलवलेश्यं महामदम् इदानीं चैव भवती मेधैर्नारा च मण्डलैः अन्धकस्य पुरीमत्र प्रापयिष्यामि पश्यामाम् अधिहृद्यमधिस्वादु त्वद्वपुर्बिलनिर्गतम् अपूर्वं मङ्गनारक्तं पिबन्धु ममानुज ममानुजवधोद्धस्य प्रत्यवायस्य तद्बलम् अधुना भोक्ष्यसे दुष्ठे पश्य मे भुजयोर्बलम् इति सन्तर्जयन् करिवरस्थितां करी सैन्यं प्रोत्साहयामास शक्तिसेना विमर्दने अथ तां पृतनां चण्डी पुरण्डस्य महौजसः विमर्दयितु मुद्युक्ता स्वसैन्यं प्रोदसी सहध अपूर्वाहवसं जात कौतुकाथ जगादताम् अश्वरूढा समागत्य सस्नेहार्द्रमिदं वचः सखिसम्पत्करिप्रीत्या मम वाणीनिशमयतम् अस्य युद्धमिदं देहि मम कर्तुं गुणोत्तरं क्षणं सखस्वसमरे मयैवैष नियोच्यते याचितासि सखित्वेन नात्र संशयमाचर इति तस्या श्रुत्वा सम्पद्देव्या शुचिस्मिता निवर्तयामास च मूं कुरुण्डाभिमुखोद्धिताम् अथ बालार्कवर्णाभिशक्तिभिः समधिष्ठिताः तरङ्गा सैनियास्थरंगावादरंहस खर खुरपु क्षोणी मुल्लिखंदो मुहुर्मुहु प्रेदुरेक कुरंडस्य कुरंड च मुखे वलगागृत संवर्तन विवर्तने कदिभेदेषु चारेषु पञ्चथा कुरपातने प्रोत्साहने च संज्ञाभिः करपादाग्रयोनिभिः चतुराभिस्तुरङ्गस्य हृदयज्ञाभिराहवे अश्वारूढाम्बिका सैन्यशक्तिभिस्सह दानवाः प्रोत्साहिधा कुरण्डेन समयुध्यन्त दुर्मदाः एवं प्रवृत्ते समरे शक्रीणाञ्च सुरद्विषाम् अपराजितनामानं हयमारुह्यवेगिनम् अभ्यद्रवधुराचारमश्वारूढा कुरण्टकम् प्रचलद्वेणिसुभगा शरश्चन्द्रकलोज्ज्वला सन्ध्यानुरक्तशीदांशुमण्डली सुन्दरानना स्मयमानेव समरे गृहीतमणिकार्मुका अवा किरचरासारैः कुरण्डं तुरगानना सुरगारूढयोत्क्षिप्ता समाक्रा मन्दिगन्धरान् दिशो दशव्यानशिरे रुक्मपुङ्खा शिलीमुखाः दुर्मदस्याग्रजक्रुद्धकुरण्ढश्चण्डविक्रमः विशिखैः शार्ङ्गनिष्ठ्युतैरस्वारुढा मवा किरत् चण्ठैः खुरपुडै सैन्यं खण्डयन्नदिवेगतः अश्वारूढात्तुरङ्गोऽपि मर्दयामास दानवान् तस्याह्येशारबाद्दूरमुत्पादाम्बुधिनिःस्वनः अमूर्चयन्ननेकानि प्रचलिता हयासना तैनीता वैरीण इतस्तः प्रचलद्रे हयासनाजं पाशाुधम दिव्य मुमोच्ज्वलिताकोडिशन पाशा समस्तम भी तत्सैन्यं बद्ध्वा बद्ध्वा व्यमूर्च्छयन् धस्सैनिकबन्धेन क्रुद्धः स च कुरण्टकः शरेणैकेन चिच्छेद तस्यां मणिधनुर्गुणम् छिन्नमौर्विधनुस्त्यक्त्वा दृश्यं क्रुद्धा हयासना अङ्गुशम्पातयामास तस्य वक्षसि दुर्मतेः तेनाङ्कुशेन ज्वलता पीदजीविदशोणितः कुरण्डोन्यपदद्भूमौ वज्ररुग्ण इव द्रुमः तदङ्कुशविनिष्ठ्यूताः पुदना काश्चिदुद्भटाः तत्सैन्यं पाशनिष्यन्दं भक्षयित्वा क्षयं गदाः युद्धं कुरुण्डे निगते विंशत्यक्षौहिणीपतौ हदावशिष्टास्ते दैत्याः प्रपलायन्त वैधृतम् कुरण्डं सानुजं युद्धे शक्तिसैन्यैर्निपातितम् श्रुत्वा शून्यकनाथोऽपि निशश्वास भुजङ्गवद इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने दुर्मदकुरण्डवधो नामद्वाविंशोऽध्यायः ओ